ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षीयमामृतात् ॐ नमः शम्भवाय च मयोभवाय च ॐ नमः शङ्कराय च मयस्कराय च ॐ नमः शिवाय च शिवतराय च शिवगीता प्रथमोऽध्यायः सूत अता तत्सम्प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् अनुग्रहान्महेशस्य भवदुःखस्य पेषजम् न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा कैवल्यं लभते मर्त्यः किन्तु रामाय दण्डकारण्ये पार्वतीपतिना पुरा या प्रोक्ता शिवगीताख्या गुह्याद्गुह्यतमा हि सा यस्याश्रवणमात्रेण नृणां मुक्तिर्ध्रुवं पुरा सनत्कुमाराय कन्देनाभिहिता सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः मह्यं कृपातिरेकेण प्रददौ बादरायणः उक्तं च तेन कस्मैचित् न दातव्यम् इदं त्वया पूतपुत्रान् यथा देवाः क्षुभ्यन्ति च शपन्ति च अत पृष्टो मया विप्रा भगवान् बादरायणः भगवन् देवता सर्वाः किं क्षुभ्यन्ति शपन्ति च तासाम् अत्रास्ति का हानिः यया कुप्यन्ति देवताः वारासर्यो अथ माम् आह यत्पृष्टं शृणु वत्स तत् नित्याग्निहोत्रिणो विप्राः सन्ति ये गृहमेधिनः त सर्वफलदाः सुराणां कामधेनवः भक्ष्यं पोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् अग्नौ हुते न हविषा तत्सर्वं लभ्यते दिवि नान्यदस्ति सुरेशानाम् इष्टसिद्धिप्रदं दिवि दोग्री धेनुर्यथा नीता दुःखदा गृहमेधिना तथैव ज्ञानवान् विप्रो देवानां दुःखदो भवेत् त्रिदशास्तेन विघ्नन्ति प्रविष्टा विषयं नृणाम् ततो न जायते भक्तिः शिवेकस्यापि देहिनः अविदुषाम् नैव जायते शूलपाणिनः यथा कथञ्चिज्जातापि मध्ये विच्छिद्यते नृणाम् जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् विषयऊचुः यद्येवं देवताविघ्नमाचरन्ति तमूवृताम् पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति सत्यं सूतात्मजब्रूहि तत्र उपायो वा नव सूतौ वाच कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते इष्टापूर्तादिकर्माणि तेन आचरति मानवः शिवार्पणदिया परित्यज्य यथाविदी अनुग्रहात् तेन शम्भोः जायते सुदृढो नरः ततो भीता पलायन्ते विघ्नम् हित्वा सुरेश्वराः जायते तेन शुश्रूषा चरिते चन्द्रमौळिनः शृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते बहुना अत्रकिमुक्तेन किमुक्तेन यस्य भक्तिः शिवे दृढा महापाप उपपापौ ग कोटिग्रस्तोऽपि मुच्यते अनादरेण शाट्येन परिहासेन मायया शिवभक्तिरतश्चेत्स्यात् अन्त्यजोऽपि विमुच्यते एवं भक्तिच्च सर्वेषां सर्वदा सर्वतोमुखी तस्यां तु यस्तु मर्त्योतमुच्यते संसारबन्धनात्तस्मादन्यः को वास्ति मूढधी नेमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा तस्यापि चेत् प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् वृद्धं किञ्चित् समादाय फुल्लकं जलमेव वा यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् तत्रापि अशक्तो नियमात् नमस्कारं प्रदक्षिणा यहा करोति महेशस्य तस्मै तुष्टो भवेत् शिवः प्रदक्षिणासु अशक्तोऽपि यथा स्वान्ते चिन्तयेत् शिवम् गच्छन् समुपविष्टो वा तस्य अभीष्टं प्रयच्छति चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि फलानि तादृशान्येव यस्य प्रीतिकराणि वै दुष्करं तस्य सेवायां किमस्ति भुवनत्रये वन्येषु यादृशी प्रीतिः वत्तते परमयीशितुः उत्तमेष्वपि नास्त्येव तादृशी ग्रामजेष्वपि तं तादृशं देवं यः सेवेत अन्यदेवतां स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकां किन्तु यस्यास्ति दुरितं कोटिजन्मसु सञ्चितम् तस्य प्रकाशते नायम् अर्थो मोहान्धचेतसः न कालनियमो यत्र न देशस्य स्थलस्य च यत्रास्य चित्तं रमते तस्य ज्ञानेन केवलम् आत्मत्वेन शिवस्यासौ शिवशायुज्यम् आपुयात् अतिस्वल्पतरायुः स्वीभूतेषां चाधिपोऽपि यः ततुराजा तु राजा अहमस्मीति वादिनम् अन्तिसान्वयम् कर्तापि सर्वलोकानाम् अक्षय ऐश्वर्यवानपि शिवः शिवोऽहमस्मीति वादिनं वादीनम च कञ्चन आत्मना सगतादात्म्यपागिनं कुरुते भृशं धर्मार्थकाममोक्षाणाम् पारं यस्य अत येन वै मुनियस्तत्प्रवक्ष्यामि प्रतम् पाशुपता कृत्वा तु विरजाम् दीक्षाम् ऊतिरुध्राक्षधारिणः जपन्तो वेदसाराख्यं शिवनामसहस्रकम् सन्त्यज्य तेनमत्यत्वं शैवीं तनुमपाप्स्यत तत प्रसन्नो भगवान् शंकरो लोकशङ्करः भवताम् दृश्यताहं चेत्य कैवल्यं बहु प्रदास्यति रामाय दण्डकारण्ये यत्प्रादात् कुम्भसम्भवः तत्सर्वम् बहु प्रवक्ष्यामि शृणुध्वम् भक्तियोगिनः इति श्रीपद्मपुराणे उपरिभागे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे शिवभक्ति उत्कर्षणनिरूपणं नाम प्रथमोऽध्यायः